स क्रीडा लुलित ललितम् विश्लतत् एष पहाषौ मन्दो भिन्न श्रम जलकणौ नोबनीयम् त्वदङ्गम् कारुण्या बे सकृदपि दर्शयेति प्रेमोऽद भुवन मदन